अथ तृतीयः सर्गः स लम्ब लम्बे लम्बतो यदसन्निभे सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः निशिलङ्काम् महासत्त्वो विवेशकपि कुञ्जरः रम्यकाननतो याढ्याम् पुरीम् शारदाम् बुधरप्रख्यैर्भवनैरुपशोभिताम् सागरोपमनिर्घोषाम् सागरानिलसेविताम् सुपुष्टबलसम्पुष्टाम् यथैव विटपावतीम् चारुतोरणनिर्यूहाम् पाण्डुरद्वारतोरणाम् भुजगाचरिताम् गुप्ताम् शुभाम् भोगवतीमिव म् स विद्युध्वनाकीर्णाम् ज्योतिर्गणनिषेविताम् चण्डमारुतनिह्रादाम् यथा चाप्यमरावती शातकुम्भेण महता प्राकारेणाभिसंवृता किङ्किणीजालघोषाभिः पताकाभिरलङ्कृता विस्मया विष्टृदी आलोक्यत जामयद्वारतवेक वज्रस्फिक मुक्ताम भूषितटक निर्यूराजतामल पंडुर वैदूसोपन स्फाटिकांशु चारु सजव नोपेत खमिवोत्पतिशुभ क्रौंच बर्ण संघुष्टज हंस निषेवितूरिया निर्घोषिता बस्वकसार प्रतिमा समीक्ष्य नगरी खमिवोत्पति जहर्ष हनुमा कप समीक्ष्य पुरीम् लङ्काम् राक्षसाधिपतेः शुभा अनुत्तमा रुद्धिमतीम् चिन्तयामासवीर्यवान् नेयमन्येन नगरी शक्या धर्शयितुम् बलात् रक्षिता रावणबलैरुद्यता युधपाणिभिः कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः प्रसिद्धेयम् भवेद् भूमिर्मयीन्दद्विविधयोरपि विवस्वतस्तनोजस्य हरेश्च कुशपर्वणः वृक्षस्य कपि मुख्यस्य मम चैव गतिर्भवेत् समीक्ष्य च महाबाहो राघवस्य पराक्रमम् लक्ष्मणस्य च विक्रान्तमभवत् ष्टतिमिराम् दीपैर्भास्वरैश्च महाग्रहैः नगरीम् राक्षसेन्द्रस्य सददर्श महाकपिः अथ सा हरिशार्दूलम् रूपेण ददर्श पवनात्मजम् दृष्ट्वा लङ्कारावणपालिता स्वयमेवोत्थिता तत्र विकृता पुरस्तात्तस्य वीरस्य वायुसूनोरतिष्ठत मुञ्चमाना महानादमब्रवीत्पवनात्मजम् कस्त्वम् केन च कार्येण इह प्राप्तो वनालया कथय स्वेहयत्तत्वम् यावत्प्राणाधरन्ति ते न शक्यम् खल्वियम् लङ्का प्रवेष्टुम् वानर रक्षिता रावणबलैरभिगुप्ता समन्ततः अथ तामब्रवीद्वीरो हनुमानग्रतस्थिताम् कथयिष्यामि तत्तत्त्वम् यन्माम् त्वम् परिपृच्छसे का त्वम् विरूपणयना पुरद्वारेऽवतिष्ठसे चापि माम् क्रोधान्निर्भर्त्सयसि दारुणे हनुमद्वचनम् श्रुत्वा लङ्का सा कामरूपिणी पवनात्मजम् अहम् राक्षस रावणस्य महात्मनः आज्ञा प्रतीक्षा दुर्धर्षा रक्षामि नगरीमि मा न शक्यम् मामवज्ञाय प्रवेष्टुम् नगरीमि मा अद्य सेनिहतो मया अहम् हि नगरी लङ्का स्वयमेव प्लवङ्गमा सर्वतः परिरक्षामि अतस्ते कथितम् मया लङ्काया वचनम् श्रुत्वा हनूमान् मारुतात्मजः यत्प्लवान् स हरि श्रेष्ठस्थितः सताम् स्त्रीरूप विकृताम् दृष्ट्वा वानरपुङ्गवः आबभाषेऽथ मेधावी सत्ववान् प्लवगर्षभः द्रक्ष्यामि नगरीम् लङ्काम् साट प्राकारतोरणाम् इत्यर्थमिह सम्प्राप्तः परम् कौतूहलम् हिमे मे वनान्युपवनानि हलङ्कायाः काननानि सर्वतो गृहमुख्यानि द्रष्टुमागमनम् हि तस्य तद्वचनम् श्रुत्वा लङ्का कामरूपिणी भूय एव पुनर्वाक्यम् बभाषे परुषाक्षरम् मामनिर्जित्य दुर्बुद्धेराक्षसेश्वर पालिता न शक्यम् ह्यद्यते द्रष्टुम् पुरीयम् वानराधमा ततः सहरिशार्दूलस्तामुवाचनिषाचरी दृष्ट्वा पुरीमिमाम् भद्रे पुनर्यास्ये यथागतम् ततः महानादं महानादम् सा वै लङ्का भयङ्करम् तलेन वानरश्रेष्ठम् ताडितो भृशम् न नादसु महानादम् वीर्यवान् मारुतात्मजः ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः मुष्टिनाभिजघानैनाम् हनुमान् क्रोधमूर्च्छितः स्त्री चेति मन्यमानेन नातिक्रोधः स्वयम् कृतः सा पपातसहसा भूमौ विकृता न ततस्तु हनुमान् वीरस्ताम् दृष्ट्वा विनिपातिता कृपाम् चकार तेजस्वी मन्यमानस्त्रियम् च ता ततो वैभृशमुद्विग्नालङ्कासा गद्गदाक्षरम् उवाच वाक्यं वाक्यम् हनुमन्तम् प्लवङ्गमम् प्रसीदसु महाबाहोऽत्रायस्व हरिसत्तमा समयेऽसौम्यतिष्ठन्ति सत्त्वमन्तो महाबलाः अहम् तु नगरी लङ्का स्वयमेव प्लवङ्गमा निर्जिताहम् त्वया वीर विक्रमेण महाबल इदम् च तथ्यम् शृणु मे ब्रुवन्त्या वै हरीश्वर स्वयम् स्वयम्भुपा दत्तम् यथा मम यदा त्वाम् ब्राणरः कश्चिद् विक्रमाद्वशमानयेत् तदा त्वया भयमागतम् स हि मे समयः सौम्य प्राप्तोऽद्यतवदर्शनात् स्वयम्भोभितः सत्यो न तस्यास्ति व्यतिक्रमः चैव सर्वेषाम् विनाशः समुपागतः तत्प्रविश्य हरिश्रेष्ठपुरीम् विधत्स्व सर्वकार्याणि यानि यानि यान यान हवाञ्छसि प्रविश्य शापोपहताम् हरीश्वर पुरीम् शुभाम् राक्षस मुख्यपालिता यदृच्छया त्वम् जनकात्मजाम् सतीम् यथा सुखम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे तृतीयः